श्रीमद्भागवत् महापुराणं नौमि स्कन्ध षष्ठोऽध्यायः उत्थितास्तेन साम्याथ विदुकं कलशं प्रभो पप्रक्षोकस्य कर्मेदं पीतं पुंसवनं जलं राज्ञा विदित्वाथ ईश्वरप्रहितेन ते ईश्वराय नमश्चक्रो अहो दैव बलं, बलं। ततः काल उपावृत्ते कुक्षिं निर्भेद्य दक्षिणं योनाश्वस्य तनयं चक्रवर्ती जजानः कं धार्यति कुमारोऽयं तन्यं रोयते भृशं मामधाता धातावत् स्यमारोधिरिन्दिन्द्रो दे सुनिमितं मदात् विप्रदेव प्रसादत युवनाशोऽथ तत्रैव तपसा सिद्धिमन्वगान् तत् विदधेनाम ऋतिन्द्रोऽविदुधे नाम तस्य वै यस्मा च सन्ति शुद्विघ्नान् दस्य वो रावणादयः यौवनाशोत ईजे च यज्ञं क्रतुभे आत्मविद्भूरि दक्षिणैः सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियं द्रव्यं मन्त्रोऽपिधिर्यज्ञो यजमानस्तथर्तुजः धर्मो देशश्च कालश्च सर्वमेतद्यदात्मकम् यावत् सूर्यौ देति स्म यावच्च प्रतिष्ठति सर्वं तदियोनाश्वस्य मान्धातु क्षेत्रमुच्यते शशुबिन्दो दुहितरे बिन्दुमत्या मधान्वृपः पुरुकुस्संबरीं सम्मुचुकुन्दं च योगिनं तेषां स्वसार पञ्चाशत्सौभरिं वृदे पतिं यमुनान्तर्जले मग्नन्तव्यमानपरन्तपः निवृत्तिं मेन राजस्य वीक्षमयचन धर्मिळः जातस्पृहो नृपं विप्रकन्या मे कामयाचत सोऽप्याह गृह्यतां ब्रह्मण् कामं कन्या वरे स विचिन्त्या प्रियं त्रीणां जरठोऽयम् असम्मतः वलीपलित एजत्क इत्यहं तादिश्चेतसात्मानं था सुरस्त्रीणाम् अपीसितं किं पुनर्मनुजेन्द्राणाम् इति व्यवसित प्रभुः मुनिप्रवेशित छत्रात्कन्यान्तपुरमिद्भिमन् प्रितश्च राजकन्याभि एकपञ्चाशतावरः तासां कलिर्भुन् भूयात् तदर्थे पोहसौहृदम् ममानुरूपो नायं वा इति तद्गतचेतसां सब्रह्मी चस्ताभि अपारणीय तपसि यानर्घपरिच्छदेषु ध्येतुनानोपमनामलं नाम्भः सरस्व सौगन्धिककानेषु महार्षशय्यासनवस्त्रभूषणस्नानालुपे पान्ध्यवहारमाल्यकै फलङ्कृतस्त्रीपुरुषेषु नित्यदा रेमेणुगायन्तिजभृङ्गवन्दिषु यद्गार्हस्थ्यं तु संयच्छ सप्तदीपं वतिपतिः विस्मृतस्तम्भमजहात् सार्वभौमस्न्यान्वितम् एवं गृहे सुभिरतो विषयान्विविधैः सुखैः सेवमालो न चा आद्यस्तुकैरिवानलः स कदाचिदुपासेन आत्मापन्नवमात्मनः धरसब्रह्ृचाचार्यो मीनसङ्गसमुत्थितम् अहो इमं पश्यत मे विनाशं तपस्विन सच्चरितव्रतस्य अन्तर्जले वारिचरप्रसङ्गात् प्रज्ञापितं ब्रह्मचिरं धितं यत् सङ्गं त्यजेत् मिथुनव्रतीनां मुमुक्षु सर्वात्मना न विसृजेन्दहिरिन्द्रियाली एकश्चरं रहसि चित्तमनन्त ईशे युञ्जीत तद्वतीषु साधुसु चेत् प्रसङ्गः एकस्तपद्यं मथाम्बीमस्य सङ्गात् पञ्चासदासमुतं पञ्चसहस्रसर्गः नान्तं व्रजां विभयकृत्य मनोरथानां मायागुणैर्हितमतिर्विषये स्वभावः एवं वसन् विरक्तो न्यासमास्थितः वनं जगामान् यू तत्पत्नपतिदेवताः तत्र तप्त्वा तपस्तीक्ष्णमात्मकर्षणमात्मानं तथैवाग्निभिरात्मानं तासु परित्योर्महाराजाध्यात्मिकीं गतिम् अन्वियो तत्प्रभावेण अग्निं शान्तम् इवार्चिष इति श्रीमद्भागवते महापुराणे पारंशां चयितायां नव निष्कन्धे सौभर्याख्याने षष्ठोऽध्यायः